बालकाण्डं सर्गं फैव् श्रीमहादेव उवाच तत्र कामाश्रमे रम्ये कानने मुनिसंगुले उषित्वा रजनीमेकां प्रभाते प्रस्थिता शनैः सिद्धाश्रमं गदा सर्वे सिद्धचारणसेवितम् विश्वामित्रेण सन्दिष्टा मुनयस्तन्निवासिनः पूजां च महदीं चक्रु रामलक्ष्मणयोर्धृतं श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यतां दर्शयस्व महाभागकुतस्थौ राक्षसाधमौ तदेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह मध्याह्ने ददृशादेतौ राक्षसौ कामरूपिणौ मारीच सुबाहुश्च वर्षन्तौ रुधिरास्तिनी रामोऽपि धनुराधाय द्वौ बाणौ सन्दधे सुधीः आकर्णान्तम् समाकृष्य विससर्ज तयोः पृथक् तयोरेकस्तु मरीचं भ्रामयञ्चदयो जनं पादयामास जलधौ तदद्भुतमिवा भवद द्वितीयोऽग्निमयो बाणसुबाकुमज यत्क्षणाद अपरे लक्ष्मणेनाशु हदास्तदनुयायिनः पुष्पौखैराकिरन्देवा राघवं सह लक्ष्मणं देवदुन्दुभयो ने दुस्तुष्टुवुसिद्धचारणाः विश्वामित्रस्तु सम्पूज्य पूजार्थं रघुनन्दनम् अङ्गे निवेश्य चालिङ्ग्य भाष्पा भाष्पाकुलेक्षणः भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयं चतुर्धेहनि सम्प्राप्ते कौशिको राममब्रवीद राम राममहायज्ञं द्रष्टुं गच्छामहे वयम् विदेकराजनगरे जनकस्य महात्मनः तत्र माहेश्वरं चापमस्तिन्यस्तं पिनाकिना द्रक्ष्यसि महासत्वं महासत्त्वं पूज्यस्य जनकेन च इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् गौतमस्याश्रमं पुण्यं यत्राह्ल्यास्थितात्तपः दिव्यपुष्पफलोपेदपादफैः परिवेष्टितम् मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः कस्यैतदाश्रमपदम्भादिभास्वच्छुभं महद पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् आह्लाद यदि मे चेदो भगवन् ब्रूहि तत्त्वतः विश्वामित्र उवाच शृणुराम पुरावृत्तं गौतमो लोकविश्रुतः सर्वधर्मभृदां श्रेष्ठस्तपसाराधयन् हरिन् तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीं ब्रह्मचर्येण सन्तुष्टशुश्रूषणपरायणां तया सार्धमिहा वात्सीद् गौतमस्तपताम्बरः चक्रस्तुतां दर्शयितुमन्तरं प्रेप्सुरन्वहं कदाचिन्मुनिवेषेण गौदमे निर्गदे गृहाद दर्शयित्वाद निरगात्वरितं मुनिरप्यगाद दृष्ट्वा यान्तं स्वरूपेण मुनिः पप्रकस्त्वं दुष्टात्मन्ममरूप धरोद्धमः सत्यं ब्रूहिना चेद्भस्म करिष्यामि न संशयः सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करं कृतं जुगुप्सितं कर्म मया कुत्सिद चेदसा गौधम क्रोध तां राक्षशशाप दिविजाधिपम् योऽनिलम्पडदुष्टात्मन्सहस्रभगवान् भव शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतं दृष्ट्वा हल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीद दुष्टे त्वं तिष्ठदुर्वृत्ते शिलायामाश्रमे मम निराहारादिवारात्रं तपः परममास्थिता आतपानिलवर्षादिसहिष्णुः परमेश्वरं ज्यायन्ति राममेकाग्रमनसा हृदि संस्थितं नानाजन्धुविहीनोऽयमाश्रमो मे भविष्यदि एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च रामो दाशरद्धिः श्रीमानागमिष्यति सानुजः यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति तदैव धूतपापा त्वं रामं सम्पूज्य भक्तितः परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे पूर्ववन्म शुश्रूषां करिष्यसि यथा सुखम् इत्युक्त्वा गौतमप्रागाद्धिमवन्दं न गोत्तमं तदाध्यहल्या भूतानामदृश्या स्वाश्रमे शुभे तव पादरजस्पर्शं काङ्क्षदे पवनाशना आस्ते द्याभिरघुश्रेष्ठ तपो दुष्करमास्तिदा पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुदाम् इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः दर्शयामास चाहल्यामुग्रेण तपसा स्थितां राम शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनां न नाम राघवोहल्यां रामोऽहमिति च चतुर्भुजम् शङ्खचक्रगदापङ्कजधारिणं धनुर्बाणधरं रामं लक्ष्मणेन समन्वितं स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्गितवक्षसं नीलमाणिक्यसङ्घाष्यं द्योदयन्तं दिशोदश दृष्ट्वा रामं रमानाथं हर्ष विस्वारितेक्षणा गौतमस्य वच स्मृत्वा ज्ञात्वा नारायणं वरम् सम्पूज्य विधिवद् राममर्घ्यादिभिरनिन्दिता हर्षाश्रुजलनेत्रान्ता दण्डवत् प्रणिपत्यसा उदाय च पुनर्दृष्ट्वा रामं राजीवलोचनं पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलद अहल्यो अहो कृतार्थास्मि जगन्निवासदे पादाब्ज संलग्नरजकणादहं स्पृशामि यत् पद्मज रन्धिमानसैः सदा अहो विचित्रं तव रामचेष्टितं मनुष्यभावेन विमोहितं जगद चलस्य जस्रं चरणादिवर्जितः सम्पूर्ण आनन्दमयोदिमायिकः पवित्रगात्रा भागीरथी भव पिरिञ्चिमुखान् पुनादिसाक्षात् स सा एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् मर्यावता मनुजाकृति हरि राधेय रमणीय देर्धरम पद्म लोचनम भज्यम परां भजिष्ये यदपंकज रुतिर्मृग्यन्नापकजव कमलासन यन्नाम साररसिको भगवान्पुरारिस्तं रामचन्द्रमनिषं कृदिभावयामि यस्यावतारचरितानि विरिञ्जि लोके गायन्ति नारदमुखा भव आनन्दजाश्रु परिषिक्तकुजाग्रसीमा वागीश्वरी शतमखं शरणं प्रपद्ये सोऽयं परात्मा पुरुषः पुराण एकस्वयं ज्योतिरनन्द आद्यः मायातनुं लोकविमोहनीयां धत्ते परानुग्रहयेषरामः अयं हि विश्वोद्भव संयमानामेकस्वमाया गुणबिम्बितो यः विरिञ्जि विष्णवीश्वरनामभेदान्धत्ते स्वतन्त्रः परिपूर्ण आत्मा नमोस्तुते ते राम तवाङ्कृपङ्कजं श्रिया धृतं वक्षसिलालितं प्रियाद आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः जगदामादिभूतस्त्वं जगत्त्वं जगदाश्रयः सर्वभूदेष्व संयुक्त येको भादि भवान परः ओङ्कार वाच्यस्त्वं राम वाचामविषयः पुमान् वाच्य वाचकभेदेन भवानेव वा जगन्मयः कार्यकारणकर्तृत्वफलसाधनभेतदः एको विभासिरामत्वं मायया बहुरूपया त्वन्माया माया मोकित धियस्त्वां न जानन्ति तत्त्वदः मानुष्यं त्वाभिमन्ये मायिनं परमेश्वरम् आकाशवत्त्वं सर्वत्र बहिरन्तर्गतो मलः असङ्गोह्यचलो नित्यशुद्धो बुद्धः सदव्ययः योषिन्मूटाहमज्ञाते तत्त्वं जाने कथं विभो तस्माक्ते सदशो राम नमस्कुर्यामनन्यधीः देव मे यत्र कुत्रापि स्थिताय अपि सर्वदा त्वत्पादकमले सक्ता भक्तिरेव सदास्तु नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल नमस्तेऽस्तु हृषिकेश नारायण नमोस्तुते। भवभयहरमेकं भानुकोटिप्रकाश्यं करधृतशरचापं कालमेखावभासं कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतस्थितम् परिक्रम्य प्रणम्याशु सानुज्ञाता ययौपदिम् अहल्यया कृतं स्तोत्रं यः पठेद् भक्तिसंयुतः समुच्यते किल पापैः परं ब्रह्माधिगच्छति पुत्राद्यर्थे पठेद्भ्र्या रामं हृदि संवत्सरेण लभदे वन्ध्या अपि सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषस्थ्ययी सुरापोऽपि मातृभ्रातृविहिंसकोऽपि सा सततं भोकैकबद्धातुरः का नित्यं स्तोत्रमिदं जपन् रकुपदिम्भक्र्या हृदि स्मरन् ध्यायन्मुक्तिमुपैदि किं पुनरसौ स्वाचारयुक्तो इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे अकल्योद्धरणं नाम पञ्चमः सर्गः